हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रमाणे युद्धकाण्डे एकत्रिंश सर्गः श्रीरामस्य मायामयम् छिदम् मस्तकं सन्दर्श्य रावणेन सीताया मोहनम् ततः सन्नक्षोऽभ्य बलम् लङ्कायां नृपतेश्चरः सुवैले राघवं शैले निवेष्टम् प्रत्यवेदयन् चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् मह बलम् दातु वेगोऽभवत् किञ्चित् निदम निदमब्रवीत् मन्त्रिण शीघ्रमायान्तु सर्वे वै सुसमाहितः अयम् नो मन्त्रकालो हि इति राक्षसः तस्य तच्छासनम् श्रुत्वा मन्त्रिणोऽभ्यागमन्दृतम् ततः मंत्रयामास, मन्त्रयामास राक्षसै सचिवैः सह मन्त्रयित्वा तु दूर्धर्ष क्षमं यत्तदनन्तरम् विसर्जयित्वा सचिवान् प्रविवेश समालयम् ततो राक्षसमादाय विद्युज्जीह्नु बलम् मायाविनम् महामायम् प्राविशद् यत्र मैथिली विद्युज्जीवं च मायाज्ञम् अब्रवी द्राक्षसाधिपः गोहयिष्यावहे सीताम् बाह्यया जनकात्मजाम् शिरो मायामयम् राघवस्य निशाचर मान्तम् समुपतिष्ठस्व महश्च स शरम् धनुः एवम् मुक्तः तथित्याह विद्युज्जीभो निशाचरः दर्शयामास तमायाम् सुप्रयुक्ताम् च रावणे तस्य तुष्टो भवद्राजा प्रददोच विभूषणं विभूषणम् अशोकवनिकायाम् च सीतादर्शनलालसः नैरृतानाम् अधिपतिः संविवेश महाबलः चतुर्दीनाम् अदैन्यार्हाम् ददर्श धनरानुजः अधोमुखीम् शोकपराम् उपविष्टाम् महीतले भक्तारम् समनुद्यान्तिम् अशोक वनिकां गताम् उपास्यमानाम् घोराभिः राक्षसीभि उपसृत्य तदर्ताम् प्रहचन्नाम कीर्तयन् इदं च वचनम् धृष्टम् उवाच जनकामज शांत्यना मैया भद्रे यश्रिज विमे खर हंता भर्ता राघव सीनते सर्वथ मूलं दर्पच निहतो मया व्यसने से मम भार् भविष्य विसृजयता किं वृतेन करिष्यसि भवस्व भद्रे भार्याणाम् सर्वासाम्बीश्वरी मम अल्पपुण्ये निवृत्तार्थे मूढे पण्डित मानि शृणु भर्तृ वधन्सि ते घोरम् वृत्र वधम् यथा समायात समुद्रान्तम् हन्तुम् माम् किल राघव प्रणीतेन बलेन महतावृतः सन्निविष्ट समुद्रस्य पीड्यतीरमथोत्तरम् बलेन महता रामो व्रजत्यस्थम् दिवाकरे अथा परिशांतं परिश्रान्तम् अर्धरात्रे स्थितम् बलम् सुखसुप्तम् समासाद्य चरितम् प्रथमम् चरैः तत्र प्रणीतेन बलेन महता बलमस्य हतम् रात्रौ यत्र रामः स लक्ष्मणः पट्टि चान् परिघाचक्रान् वृष्टि नन्दान् महायुधान् बाणजालानि चूलानि भास्वरान् कुटुमुद्गरान् यष्टि च तोमरान् तासाम् चक्राणि मुसलानि च उद्यमोद्यमक्षो भी वनरशु निपति अथ सूक्त सेम से प्रहस्तेन प्रमाहस्तेन शिरछि महर्षि बिभीषण सुत्पत्गृत यदुझ सैन्य लक्ष्मण प्लग सह सुग्रीवो ग्रीवयासीते भग्नया प्लवगाधिपः निरस्तहनुकस्ति ते हनुमान् राक्षसे हृतः जाम्बवान् रथजानुभ्याम् उत्पतन् यतो युधि पचिषै बहुभि चिन्नौ निकृतः पादबो यथा मैन्दश्च द्विदश्चोभौ ततो वानरवर्षभ निश्वसन्तो रुदन्तो च रुधिरेण परिपृतौ अथेना व्यायतौ छिन्नौ मध्ये हरि निषोदनौ अनुश्वसीति मेदिन्याम् पनसपनसो यथा नाराचे भवभिच्छिन्न शैते दर्यां दरिमुख कुमुदस्तु महतेज निष्कूजन् सायके हतः अङ्गतो भविन्न क्षरैसाध्य राक्षसै परितो हृदिरोद्गारी चितो नेपतितोऽङ्गद हर्यो मसिता नागै रथजालैः तथा परे शयानाम् मृदिता तत्र वायुवेगैवाम्बुदः प्रसृता च परे ता हन्यमाना जगन्यतः अनुद्रुतास्तु रक्षोभिः सिंहैव महाद्विपः सागरे पतिता केचित् केचिद् गगनमाश्रितः वृक्षा वृक्षानुपारूढ वानरिम् वृत्तिमाश्रितः सागरस्य च तीरेषु शैलेषु च वनेषु च चे। पिङ्गलास्ते विरूपाक्षै राक्षसै बहवो एवम् तव हतो भर्ता स्वसैन्यो मम सेनय क्षतदार्द्रम् रजोध्वस्तम् इदम् चास्याहृतम् शिरः स च परम दुर्धशो रावणो राक्षसेश्वरः सीतायामुपशृण्वन्त्याम् राक्षसीमिदमब्रवीत् राक्षसम् क्रूर कर्माणम् विद्युज्जीवम् समानय येन तद्राघवशिरः सङ्ग्रामा स्वयमाहृतम् विद्युज्जीवः तदा गृह्य शिरस शरसा स शरासनम् प्रणामम् शिरसा कृत्वा रावणश्च गृतस्थितः तमब्रवीत् ततो राजा रावणो राक्षसंस्थितम् विद्युज्जीह्वम् महाजिह्वम् ीपे परिवर्तिनम् अग्रत कुरु सीताय शीघ्रं दाशरथे शिरः अवस्थां पश्चिमाम्भर्तु कृपणा साधु पश्यतु एवम् उक्तं तु तद्रक्षे शिरस् प्रियदर्शनम् उपनिक्षेप्य सीताय क्षिप्रत रावणश्चापि शिक्षेप भास्वरम् कार्मुकम् महत् त्रिश्लोकेषु विख्यातम् रामस्य सदिति ब्रुवन् इदं तत् तव रामस्य कार्मुकम् यासमावृतम् इह बृहस्तेनातीतं हत्वा निशिमानुषम् स विद्युज्जीह्वेन सहैव सचिरो धनुष भूमौ विनिकीर्यमाण विदेहराज्यस्य सुताम् यशस्विनीम् तत्स्रवीताम् भवमेवशानुगा इत्याचि श्रीमद् रामायणे वाल्मीकि आधिकाव्ये युद्धकाण्डे एकत्रिं च सर्ग श्रीसीतारामचन्द्रार्भणमस्तु